नारायणीयं दशकं तर्टि मीटर मीटर् मन्दाक्रान्त प्रीत्या दैत्यस्तवतनुमहःप्रेक्षणात् सर्वधा वित्वामाराध्यन्नजितरजयन्नञ्जलिं सञ्जगाद मत्त किं ते समभिलषितं विप्रसूनो वदत्वम् वित्तम्भक्तम् भवनमवनीम् वापि सर्वं प्रदास्ये तामक्षीणाम् बलिगिरमुपाकर्ण्यकारुण्य पूर्णोऽप्यस्योत्सेकं शमयितुमना दैत्यवंश्यम् प्रशंसन् भूमिम् पादत्रयपरिमिदाम् प्रार्थयामासिधत्वम् सर्वं देही दिदु निगदिते दे कस्य हास्यम् न वा माम् त्रिपदमिह याचसे बालिशस्त्वम् सर्वाम् भूमिं। वृणु किममुनेत्यालपत्वां स यस्माद्दर्पात्रिपदपरिपूर्त्यक्षमः क्षेपवादान् बन्धं च सा वगमदर्होऽपि गाढोपशान्त्यै पादत्रय्या यदिनमुदिदो न नापितुष्ये विष्टपैर्नापि तुष्येदित्युक्तेऽस्मिन्वरदभवदे धादुकामेधतोऽयम् दैत्याचार्यवखलुरीक्षा प्रेरणा मेयम हरियमें दिव्यकृतमेवा बभाषे याचतेम यदि स भगवान्मों सो दायामे स्थिमिधि वदन का शि दैत्य विंध्यावल्या निजदयितया दत्तपाध्यायतुभ्यं चित्रं चित्रं सकलमपि स प्रार्पयतोयपूर्वम् निःसन्देहं दिदिगुलपतौ त्वय्य शेषार्पणं तद्व्यादन्वाने मुमुचुर्षयस् सामराः पुष्पवर्षं दिव्यं रूपं तव च तदितं पश्यतां विश्वभाजामुच्चैरुच्चैरभृधदवधीकृत्य विश्वाण्डभाण्डं त्वत्पादाग्रं निजपदगदं पुण्डरीकोद्भवोत्सौ पुण्डितोैरसिचदपुनाद्यज्जलं विश्वलोकान् हर्षो सुबहु हर्षोत्कर्षात् सुबहुनननृते केजरैरुत्सवेस्मिन् भेरीं निघ्नन् भुवनमजरज्जाम्बवान् भक्तिशाली तावदैत्यास्त्वनु मदिमृदे भर्तुरारब्धयुधा देवो देवोपेदैर्भवदनुचरैः सङ्गदा भङ्गमापन् कालात्मायं वसति पुरदो यद्वशात् प्राग्जिदास्मत् किम्बो युद्धैरिति बलिगिरा तेधपादालमापुः पाश्चैर्बद्धम् पदगपदिना दैत्यमुच्चैरवादीस्तार्तीकं दिश मम पदं किं न विश्वेश्वरोऽसि पादं मूर्ध्नि प्रणय भगवन्नित्यकम्बं वदन्तं प्रह्लादस्तं स्वयमुपगतो मानयन्नस्तवित्वाम् दर्पोच्चित्यै विहितमखिलं दैत्यसिद्धोऽसि पुण्याैर्लोकस्ते स्तुत्रिदिवविजयी वासवत्वं च पश्चाद मत्सायुज्यं भज च पुनरित्यन्वगृह्णा बलिं तं विप्रै सन्तानिदमखवरः पाहि वादालयेश